भागवत श्रीमद्भागवत महापुराणादश स्कंध अथ तृतीय माया माया से पार होने के उपाय तथा ब्रह्म और कर्म योग का निरूपण राज पिष्ण माइना मायाम मेदम्छामो भगवंतों ब्रुवं न नानुतृप्ये जुसञ्जुष्मन्वचो हरिकथामृतं संसारतापनिस्तप्तो मर्तस्तापभीषजम् अन्तरिक्ष उवाच एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ससर्जोद्यावचान्याद्य समात्रात्म प्रसिद्धये एवं श्रेष्ठानि भूतानि प्रविष्ट पञ्चधातुभिः एकधा दशधात्मानं विभजञ्जुषुते गुणान् गुणैर्गुणां श आत्मा प्रद्योतिते प्रभु मन्यमान इदं श्रेष्ठम् आत्मानम् आत्मानम् इह सज्जते कर्माणि कर्मभिः कुर्वन् श निमित्तानि देहभ्री तत्तत्कर्मफलं गृह्णन् भ्रमतिह सुखेतरम् इत्थं कर्मगतिर्गच्छन् बह्वभद्रवहास्पुरां पुमान् आभूतसंप्लवात् सर्गप्रलयावश्नुते वशः धातुप्लव आसन्ने व्यक्तं अनादिनिधनकालो ह्यव्यक्तायापकर्षते शतवर्षाशना वृष्टेर्भविष्यत्योल्बणा भुवि तत्कालोपचितोष्णार्को लोकांसिन् प्रतिपेष्यते पातालं तलां तलमारभ्य सकर्षणमुखालः दहन्नोर्ध्वशिखो विश्वं वर्धते सांवर्तको मेघगणो वर्षति स्म शतं शमाह धाराभिर्हस्तिहस्ताभिर्लीयते ललिते विराट् ततो विराजमुसृज्य वैराजः पुरुषो नृप अव्यक्तं विशते सूक्ष्मं निरिन्धन् इवानलः वायुनाशितगन्धा भूसलिलत्वायु कल्पते कलीलं तद्धृतरसं ज्योतिष्ट वायोपकल्पते हितरूपं तु तमषा वायो ज्योतिः प्रलीयते हितस्पर्शोऽवकाशेन वायुर्नभसि लीयते कालात्मनाश्रितगुणं नभ आत्मनिलीयते इन्द्रियाले मनोबुद्धि सवैकारिकैरिपा प्रविशन्ति ह्यहङ्कारं स गुणैरहमात्मने एषा माया भगवत सर्गस्थित्यन्तकारिणीं त्रिवर्णा वर्णितास्माभिः किं भूय श्रोतुमीक्षसे राजोवाच यथैतामर्श्वरीं मायां दुस्तराम कृतात्मभि तरन्त्यज स्थूलधियो महर्ष इदमुच्यताम् प्रबुद्धौ उवाच कर्माण्यारभमाणानां दुःखहत्यै सुखाय च पश्येत् पाकविपर्यासं मिथिनीचारिणाम्नाम् नित्यार्जिते नित्यार्जितेन वित्तेन दुर्लभेन आत्ममृत्युनां गृहापत्याप्तपशुभिका प्रीतिसाधितैश्चरैः एवं लोकं परं विद्यान्नस्वरं कर्मनिर्मितं स तुल्यातिशयध्वस्सं यथा मण्डलवर्तिनां तस्माद्गुरुं प्रपद्येत जज्ञासु श्रेय उत्तमं श्राब्दे परे च निष्णातं ब्रह्मण्योपशमाश्रयं तत्र भागवतान् धर्मान् शिक्षेद्गुरवात्मदैवतः अमायया नो वृत्त्याये तु सर्वतो मनसो शङ्गम् आदौ शङ्गम् च साधुसु दयां मैत्रीम् प्रश्रयम् च भूते श्रद्धा यथोचितम् शौचम् तपस्तुतिक्षां च मौनम् स्वाध्यायमार्जवम् ब्रह्मचर्यम् अहिंसां च समत्वम् द्वन्द्वसंज्ञयोः सर्वत्रात्मेश्वरान्व्यक्षां कैवल्यमनिकेततां विविक्तचीरवसनं सन्तोषं येन केनचिन् श्रद्धां भागवते शास्त्रे निन्दामन्यत्र चापि मनोवाक् कर्मदण्डं च सत्यं समदमावपे। श्रावणं त्रमणं कीर्तनं ध्यानं हरेरद्भुतकर्मलः जन्मकर्मगुणानां च तदर्थे किल चेष्टितम् इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियं दारान्सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् एवं कृष्णात्मनाथेषु मनुष्येषु च सोष्ठदम् परिचर्यां चोभयत्र महस्योऽनुषुसाधुषो परं परानुकथनं पावनं भगवद्यशः मिथो रतिमिथस्तुष्टैर्निवृत्तेर्मिथ आत्मनः स्मरन्त स्मार्यन्तश्च मिथो जौघ हरं हरिं भक्त्या सञ्जातया भक्त्या बिभ्रतोत्पुल्कान्तनुम्